अथैकाधिकशततमः सर्गः शक्त्या निपातितम् दृष्ट्वा रावणेन बलीयसा लक्ष्मणम् समरे शूरम् शोणितौघपरिप्लुतम् स दत्त्वा तु मुलम् युद्धम् रावणस्य दुरात्मनः विसृजन्नेव बाणौघान् सुषेणमिदमब्रवीत् एष लक्ष्मणः पतितो सर्पवच्चेष्टते वीरो मम शोकमुदीरयन् शोणितार्द्रमिमम् वीरं प्राणैः प्रियतरम् मम पश्यतो मम का शक्तिर्योद्धुम् पर्याकुलात्मनः अयम् स भ्राता मे शुभलक्षणः यदि पञ्च त्वमापन्नः प्राणैर्मे किम् सुखेन वा लज्जतीव हि साय काव्यवसीदन्ति दृष्टिर्बाष्पवशम् गता अवसीदन्ति गात्राणि स्वप्नयाने नृणामि वा चिन्ता मे वर्धते तीव्रामूर्षापि च जायते भ्रातरम् निहतम् दृष्ट्वा रावणेन दुरात्मना निष्टनन्तम् तु दुःखार्तम् मर्मण्यभिहतम् भृशम् राघवो भ्रातरम् दृष्ट्वा प्रियम् प्राणम् बहिश्चरम् दुःखेन महता विष्टो ध्यान ध्यानशोकपरायणः परम् विषादमापन्नो विललापाकुलेन्द्रियः भ्रातरम् निहतम् दृष्ट्वा लक्ष्मणम् प्रणपांसुषु विजयोऽपि हि मे शूरणनप्रियायोपकल्पते अचक्षुर्विषयश्चन्द्रः काम् प्रीतिम् जनयिष्यति युद्धेन किम् प्राणैर्युद्धकार्यम् विद्यते यत्रायम् निहतश्चेते रणमूर्धनिलक्ष्मणः यथैव माम् वन्यान्तमनुयाति महाद्युतिः अहमप्यनुयास्यामि तथैवैनम् यमक्षयम् इष्टबन्धुजनो नित्यम् मांस नित्यमनुव्रतः गमितो राक्षसैः कूटयोधिभिः देशे देशे कलत्राणि देशे, देशे, देशे च बान्धवाः तम् तु देशम् न पश्यामि यत्र भ्राता सहोदरः किम्नु नु राज्येन दुर्धर्ष लक्ष्मणेन विना मम कथम् वक्ष्याम्यहम् त्वम् वाम् सुमित्राम् पुत्रवत्सलाम् शक्ष्यामि सोढुम् दत्तम् सुमित्रया किम् वक्ष्यामि कौसल्याम् मातरम् किम् नु कैकयीम् कै। भरतम् वक्ष्यामि शत्रुघ्नम् च महाबलम् सः तेन वनम् यातो विना तेनागतः कथम् इहैव मरणम् श्रेयो न तु बन्धुविगर्हणम् किम् मया दुष्कृतम् कर्म कृतमन्यत्र जन्मनि येन मे धार्मिको भ्राता निहतश्चाग्रतस्थितः हा भ्रातर्मनुजः श्रेष्ठशूराणाम् एकाकी किम् न माम् परलोकाय गच्छसि विलपन्तम् च माम् भ्रातः किमर्थम् नावभाषसे उत्तिष्ठपश्य किम् शेषे दीनम् माम् पश्य चक्षुषा शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च विषण्णस्य महाबाहो समाश्वासयिता ममा रामेवम् तु शोकव्याकुलितेन्द्रियम् आश्वासयन्नुवाचेदम् सुषेणः परमम् वचः त्यजे माम् नरशार्दूलबुद्धिम् वैक्लव्यकारिणीम् शोकसञ्जरनीम् चिन्ताम् तुल्याम् बाणैश्च मोमुखे नैव पञ्चत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः न ह्यस्य विकृतम् वक्त्रम् न मुखमस्य निरीक्ष्यताम् पद्मपत्रतलौ हस्तौ नेदृशम् दृश्यते रूपम् गता सूनाम् विशाम् पते विषादम् मा कृथा वीरस प्राणोऽयमरिन्दमा प्रसुप्तस्य स्रस्तगात्रस्य भूतले सोच्छ्वासंहृदयम् वीरकम्पमानम् मुहुर्मुहुः एवमुक्त्वा महाप्राज्ञः सुषेणो राघवम् वचः समीपस्थमुवाचेदम् हनूमन्तम् महाकपिम् सौम्यशीघ्रमितो गत्वा पर्वतम् हि महोदयम् कथितो योऽसौ वीरजाम् भवता तव दक्षिणे शिखरे जातां महौषधिमिहानया विशल्यकरणीम् नाम्ना सावर्ण्यकरणीम् तथा सञ्जीवकरणीम् वीरसन्धानीम् च महौषधिम् सञ्जीवनार्थम् वीरस्य लक्ष्मणस्य इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम् चिन्तामभ्यगमच्छ्रीमा न जानम् स्तामहौषधीः तस्य बुद्धिः समुत्पन्ना मारुतेरमितौ जसः इदमेव गमिष्यामि गृहीत्वा शिखरम् गिरेः अस्मिंस्तु शिखरे जातामौषधीम् ताम् सुखावहाम् प्रतर्केणावगच्छामि सुषेणो ह्येवमब्रवीत् अगृह्य यदि विशल्यकरणीमहं। विशल्यकरणीमहम् कालात्ययेन दोषः स्याद् च महद्भवेत् इति सञ्चिन्त्य हनुमान् गत्वा महाबलः आसाद्यपर्वतश्रेष्ठम् त्रिप्रकम्प्य गिरे शिरः फुल्लनानाथरुगणम् समुत्पाट्य महाबलः गृहीत्वा हरिशार्दूलहस्ताभ्याम् समतोलयत् सनीलमिव जीमूतम् तोयपूर्णम् नभस्तलात् उत्पपातगृहीत्वा तु हनूमान् शिखरम् गिरेः समागम्य महावेगः सन्न्यस्य शिखरम् गिरेः विश्रम्य किञ्चिद्धनुमान् सुषेणमिदमब्रवीत् औषधीर्नावगच्छामि ता अहम् हरिपुङ्गवा तदिदम् शिखरम् कृत्स्नम् गिरेस्तस्याहृतम् मया एवम् कथयमानम् प्रशस्य पवनात्वजम् सुषेणो वानरः श्रेष्ठो जग्राहोत्पाट्यचौषधीः विस्मितास्तु बभूवुस्ते सर्वे वानरपुङ्गवाः दृष्ट्वा तु हनुमत्कर्मसुरैरपि सुदुष्करम् ततः सङ्क्षोदयित्वा तामौषधीम् वानरोत्तमः लक्ष्मणस्य ददौ न सशल्य सघ्रा लक्ष्मण परीर विशल्यो विरुज शीघ्र मुदतिष महीतला तमुत्थित हर यूतलात्क्ष्य लक्ष्मण साधु साध्वी की सुप्रीता लक्ष्मण प्रत्यपूजे हेहीत्यब्रवी द्रा लक्ष्मण परीर अब्रवीच्च परिष्वज्य सौमित्रिम् राघवस्तदा दिष्ट्या त्वाम् वीरपश्यामि मरणात् पुनरागतम् नहि मे जीवितेनार्थः सीतया च जयेन वा कोहि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते इत्येवम् ब्रुवतस्तस्य राघवस्य महात्मनः खिन्नः वाचा लक्ष्मणो वाक्यमब्रवीत् म् प्रतिज्ञाम् प्रतिज्ञाय पुरा सत्यपराक्रमा लघुः कश्चिदिवा सत्त्वो नैवम् त्वम् वक्तुमर्हसि नहि हि प्रतिज्ञाम् कुर्वन्ति वितथाम् सत्यवादिनः लक्षणम् हि महत्त्वस्य प्रतिज्ञापरिपालनम् नैराश्यमुपगन्तुम् च नालम् ते मत्कृते मघा वधेन रावणस्याद्य प्रतिज्ञामनुपालय न जीवन् यास्यते शत्रुस्तव बाणपथम् गतः नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः अहम् तु वधमिच्छामि शीघ्रमस्य दुरात्मनः यावदस्तन्नयात्येष कृतकर्मादिवाकरः यदि वधमिच्छसि रावणस्य सङ्ख्ये यदि च हितवेच्छसि प्रतिज्ञाम् यदि तव राजुताभिलाष आर्य च वचो मम शीघ्र मद वीरा इशे श्रीमद् रे वाक आदि का्युद्ध